त्रिचत्वारिंशः सर्गः युध्यताम् तु ततस्तेषाम् वानराणाम् महात्मनाम् रक्षसाम् सम्बभूवाथ बलरोषः सुदारुणः ते हयैः काञ्चनापीडैर्गजैश्चाग्निशिखोपमैः रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः निर्ययूराक्षसावीरानादयन्तो दिशो दशा राक्षसा भीमकर्माणो रावणस्य जयैषिणः वानराणामपि च मूर्बृहती जयमिच्छताम् अभ्यधावतताम् सेनाम् रक्षसाम् घोरकर्मणाम् एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् रक्षसाम् वानराणाम् च द्वन्द्वयुद्धमवर्तत अङ्गदेनेन्द्रजित्सार्धम् वालिपुत्रेण राक्षसः अयुध्यतमः तेजास्त्र्यम्बकेण यथान्धकः प्रजङ्गेन च सम्पातिर्नित्यम् दुर्धर्षणो रणे जम्बुमालिनमारब्धो हनूमानपि वानरः सङ्गतस्तु महाक्रोधो राक्षसो रावणानुजः समरे तीक्ष्णवेगेन शत्रुघ्नेन निकुम्भेण महातेजा नीलोऽपि समयुध्यता वानरेन्द्रस्तु सुग्रीवः प्रघसेन सुसङ्गतः सङ्गतः समरे श्रीमान् विरूपाक्षेण रश्मिकेतुश्च राक्षसः सुप्तघ्नो यज्ञकोपश्च रामेण सह वज्रमुष्टिश्च मैन्देन द्विविदेन शनिप्रभः राक्षसाभ्याम् सुघोराभ्याम् कपि मुख्यौ समागतौ वीरः प्रतपनो घोरो राक्षसोरणदुर्धरः समरेतीक्ष्णवेगेन नलेन समयुध्यत धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः स विद्युन्मालिना सार्धमयुध्यत द्वन्द्वम् समीयुः सहसा युद्ध्वा च बहुभिः सह तत्रासीत् सुमहद्युद्धम् तूलम् रोमहर्षणम् रक्षसाम् वानराणाम् च वीराणाम् जयमिच्छताम् हरिराक्षस देहेभ्यः केशशाद्बलाः शरीरसङ्घाटवः शुश्रुश्रोणितापगाः आजघानेन्द्रजित्क्रुद्धो वज्रेणे वशत अङ्गदम् गदया वीरम् शत्रुसैन्यविदारणम् तस्य काञ्चन चित्राङ्गम् रथम् साश्वम् ससारथिम् जघानगदया श्रीमानङ्गदो वेगवान् हरिः सम्पातिस्त्व प्रजङ्घेन त्रिभिर्बाणैः समाहतः निजघानाश्वकर्णेन प्रजङ्घम् रणमूर्धनी जम्बुमालीरथस्थस्तु रथशक्त्या महाबलः बिभेदसमरे क्रुद्धो हनुमन्तम् स्तनान्तरे तस्य तम् प्रथमास्थाय हनूमान्मारुतात्मजः प्रममाथतलेनाशु सह तेनैव रक्षस नदन्प्रतपनो घोरो नलम् सोऽभ्यनुधावत नलः प्रतपनस्याशु पातयामास चक्षुषी भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षस ग्रसन्तमिव सैन्यानि प्रघसंवानराधिपः सुग्रीवः सप्तपर्णेन निजघानजवेन च प्रपीड्यशरवर्षेण राक्षसम् भीमदर्शनम् निजघानभिरूपाक्षम् शरेणैकेन लक्ष्मणः अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः सुप्तघ्नो यज्ञकोपश्च रामम् तेषाम् चतुर्णाम् रामस्तु शिरांसि समरेशरैः क्रुद्धश्चतुर्भिश्चिच्छेदघोरैरग्निशिखोपमैः वज्रमुष्टिस्तु मैन्देन मुष्टिनानि हतोरणे पपातसरथः साश्वः भूतले निकुम्भस्तुरणे नीलम् नीलाञ्जनचयप्रभम् निर्विभेदशरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् पुनः शरशते नाथ क्षिप्रहस्तो निशाचरः समरे नीलम् निकुम्भः प्रजहास च तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे शिरश्चिच्छेदसमरे निकुम्भस्य च सारथेः वज्राशनि समस्पर्शो द्विविदोऽप्यशनिप्रभम् जघानगिरि शृङ्गेण विशताम् सर्वरक्षसाम् दिविदम् वानरेन्द्रम् तु शरैर शनि सशिव्याशन प्रभ सरिद्धांगो दिव क्रोधमूर्ताल नरथंसा शजघानशनि प्रभं विद्युमालीस्थु शै का भूषण सुषेणं ताड़ना दश मुहुर्मुहु तम रथस्थ मथो दृष्ट् सुषेणो वन गिरिशृङ्गेण महता रथमाशून्यपातयत् लाघवेण तु संयुक्तो विद्युन्मालीनिशाचरः अपक्रम्य रथात् पूर्णम् गदापाणिः ततः क्रोधसमाविष्टः हरिपुङ्गवः शिलाम् सुमहतीम् गृह्य निशाचरमभिद्रवत् गदया विद्युन्मालीनिशाचरः वक्षस्यभिजघानाशु सुषेणम् हरिपुङ्गवम् गदाप्रहारं तम् घोरमचिन्त्य प्लवगोत्तमः ताम् तूष्णीम् पातयामास तस्यो रसि शिलाप्रहाराभिहतो विद्युन्मालीनिषाचरः निष्पिष्टहृदयो भूमौ गता सुर्निपपातः एवम् तैर्वानरै द्वन्द्वे विमथितास्तत्र दैत्या इव दिवौकसैः भल्लैश्चान्यैर्गदाभिश्च शक्तितोमरसायकैः अपबिद्धैश्चापिरथैस्तथा साङ्ग्रामिकैर्हयैः विहतैः कुञ्जरैर्मत्तैस्तथा वा नरराक्षसैः चक्राक्षयुगदण्डैश्च भग्नैर्धरणि संश्रितैः बभूवायोधनम् घोरम् कबन्धानि समुत्पेतुर्दिक्षु वानर रक्षसा विमर्देतु मुले तस्मिन् देवा सुररणोपमे विहन्यमाना हरिपुङ्गवैस्तदा निशाचरा शोणित गन्धमूर्च्छिता पुनः सुयुद्धम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे त्रिचत्वारिंशत् सर्गः